श्रीमद्भागवतं महापुराणं पञ्चं स्कन्धः तत उपरिष्टाद्विलक्षयोजनान्तर्गतो भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वग्रः स्यात्प्रायेणाकुलो ब्राह्मणकुलस्य तत उपरिष्टाद्योजनलक्षद्वयाद् प्रतीयमान शनैश्चर एकैकस्मिन् राशौ त्रिषन्मान् त्रिषन्मासान् विलम्बमान् सर्वादेवान् पर्येति तावद्भिः अनुवस्सरैः प्रायेण हि सर्वेषाम् अशान्तिकरः तद उत्तरमस्मादृशयम् एकादशलक्षयो जनान्तर उपलक्षन्ते य एव लोकानां शमनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रं प्रक्रमन्ति इति श्रीमद्भागवते महापुराणे प्रभंसां शयितायां पञ्चमस्कन्दे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः अथ त्रयोविंशोऽध्यायः शिशुमार्चक्रका श्रीशोकुवाच अत्तत्मान्तरतन्तयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदम् अभिवदन्ति यद्रः महाभागवतो ध्रुव औत्तानपादं पादिः अग्निरेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भीन् स बहुमानं दक्षिणतः क्रियमाण इदानीम् अपि कल्पजीविनामाजीव्य उपास्ते तस्ये हानुभाव उपवर्णितः सही सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनाम् अनिमिषेणा व्यक्तरङ्घता भगवता कालेन भ्राम्य भ्राम्यमाणानां साणुविवान्द्रीवावष्टम्भ ईश्वरेण विहितः सस्वदं भासते यथा मेढिस्तम्भ आक्रमणपशवः संयोजिता स्त्रीभिः त्रिभिः सवनैर्यथा स्थानं मण्डलानि चरन्त्येवं भगुणाग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणाम् आकल्पांतं परिचङ्क्रमन्ति नभसि यथा मेघासेनादयो वायुवशा कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृते पुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न तीरनीकं केचनैतद्योतीरनीकं शुशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायाम् अनुवर्णयन्ति यस्य पुच्छाग्रे वाक्षिरसः कुण्डलीभूतदेहस्य ध्रुवकल्पितं तस्य नाङ्गूलेन प्रजापतिः अग्निरिन्द्रो धर्म इति पुच्छमूले धाताभिधाता च कड्यां सद्दर्शय तस्य दक्षिणावरतकुण्डलीभूतशरीरस्य यान्योदगयान् गयनानि दक्षिणपार्श्वे तु नक्षत्राण्योपकल्पयन्ति दक्षिणायनानि तु सव्ये यथा सुसुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसंख्या भवन्ति तिष्ठे त्वजवीथि आकाशगङ्गाचोदरतः पुनर्वसु पोष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे च दक्षिणवामयोः पश्चिमयोः पादयो भीन्ददुत्तराषाढे दक्षिणवामयोः नासिकयोर्यथासङ्ख्यं श्रवणपर्वाषाढे दक्षिणं वामं योर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयोः कर्णयोर्मघालीन्यष्टनक्षत्राणि दक्षिणाजनाली रामपार्श्वं क्रीशो युज्येत तथैव मृगशेषाधिन्यो दगयनाली दक्षिणपार्श्वभङ्कृषुं प्रातिलोभ्येन प्रयुञ्जीत सद्विषाद्येते स्कन्धयोर्दक्षिणवामयोर्न्यसेत उत्तराहनावगर्स्तिधराहनौ यमोमुखेषु चाङ्गारकः शनैश्चरौस्थे बृहस्पतिकुदीवक्षस्यादित्यो हृदि नारायणो मनसि चन्द्रमौनाभ्यामुशनाम् तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोम्यं रोमसु सर्वे तारागणाः एतदुभयभां भगवतो विष्णो सर्वदेवतामयं रूपमन्मरः सन्ध्यायां प्रयतो वाग्यतो दिरीक्षमाणाम् उपतिष्ठेत न भो ज्योतिर्लोकाय कालाय लायालिमिषां पते महापुरुषाया विधीमहीति ग्रहर्षताराम्यमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालं नमश्यतः स्मरतो वा त्रिकालं नस्येतत्कालजमाशु पापम् इति श्रीमद्भागवती महाब्राणीपञ्चां प्रीतायां पञ्चमस्गन्धे शशमारसंस्थापणम्नां त्रयोविंशोऽध्यायः